हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे प्रथमस्कन्धे प्रथमाध्याय ॐ सर्वचैतन्यरूपां ताम् आद्यां विद्यां च धीमहि बुद्धिं ज्ञानः प्रचोदयात् शौनकौवाच सुत सुत महाभाग धन्योसि पुरुष भय यदधीता त्वया सम्यक् पुराण संहिताशुभ अष्टादश पुराणानि कृष्णेन मुनिनानघ कथितानि सुदिव्यानि पठितानि त्वया न पञ्चलक्षणयुक्तानि सरहस्यानि मानरे त्वया ज्ञातानि सर्वाणि व्यास सत्यवती सुतात् अस्माकम् पुण्ययोगेन प्राप्तत्वं क्षेत्रमुत्तमम् दिव्यम् विश्वसनम् पुण्यम् कलिदोष विवर्जितम् समाजोऽयं मुनीं हि श्रोतुकामोति पुण्यताम् पुराणसंहितां सूत गृही त्वम् नः समाहित दीर्घायुर्भव सर्वज्ञतापत्रय विवर्जितः कथयाद्य महाभाग पुराणम् ब्रह्म सम्मितम् श्रोत्रेन्द्रिययुतासुत नरस्वचक्ष्णः न शृण्वन्ति पुराणानि वञ्चिताविधीना हि ते यथा जिह्वेन्द्रियाह्लादषड्रे प्रतिपद्यते तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधिया स्मृतः अ मुह्यन्ति हि नभोगुणैः स कर्णा येन शृण्वन्तीत्यप्यकर्णा कथञ्चन अयः सर्वे द्विधा सौम्यः श्रोतुकामा समाहिताः वर्तन्ते नैविण्ये क्षेत्रे कलिभयार्जिता दिता कालातिवाहनं स्फुतम् व्यसने ह्य मूर्खाणाम् बुधानां चास्त्रचिन्तने शास्त्राण्यपि विचित्राणि जल्पबाधयुतानि च त्रिविधानि पुराणानि शास्त्राणि विविधानि च वितण्डाय छलयुक्तानि गर्वामर्शकराणि च नानार्थवादयुक्तानि हेतुमन्ति ब्रहन्ति च सात्विकम् तत्र वेदान्तम् मीमांसा राजसं स्मृतमतम् तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् तथैव च पुराणानि त्रिगुणानि कथानकै कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् कथितम् यत् त्वया पूर्वं सर्वलक्षणसंयुतम् उद्देश्यमात्रेण तदा कीर्तिदम् परमाद्भुतम् मुक्तिपदम् मुक्षोणाम् कामदम् धर्मदम् तथा विस्तरेण तदाख्याहि पुराणोत्तममादरात् श्रोतुकामा द्विजा सर्वे दिव्यम् भागवतम् शुभम् तन्तु जानासि धर्मज्ञ पौराणिं संहिताम् किल कृष्णोक्ताम् गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयहे श्रुतान्य सर्वज्ञ तन्मुखानि श्रुतानि च नैव तृप्तिम् सुधापाने मरा यथा दिक्सुधाम् पिबतां सूत मुक्तिर्नैव कदाचन पिबन् भागवतम् सद्यो नरो मुचेत सङ्गणात् सुनापान निमित्तम् यत्कृता यज्ञा सहस्रज न शान्तिम् अधिगच्छाम सूक्त सर्वात्मना वयम् मखानां हि फलम् स्वर्ग स्वर्गात् प्रत्यवनम् पुनः एवम् संसारचक्रेऽस्मिन् च निरन्तरम् विना सर्वज्ञ नैव मुक्तिः कदाचन भ्रमताम् कालचक्रेऽत्र नराणाम् त्रिगुणात्मके अतः सर्वरसोपेतम् पुण्यम् भागवतम् वदे पावन्नम् मुक्तिसम् गुह्यम् ममुक्षूणाम् इति श्रीमद्देवी महापुराणे अष्टादशसहस्र्याम् संहितायाम् प्रथमस्कन्धे शौनकप्रश्नो नाम प्रथमोऽध्याय जगदम्बिकायार्पणमस्तु